हरि ओम् श्रीसीता रामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे अष्टाविंश सर्गः वनवासे क्लेशं वर्णयता श्रीरामेण सीतायाः तत्र गमनान निवारणन् सेवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः न नेतुं कुरुते बुद्धिम् वने दुःखा निचिन्तयन् शान्तयित्वा तस्तान्तु बाष्पदूषितलोचनां निवर्तनार्थे धर्मात्मा वाक्यमेत उवाचते महाकुलीनासी धर्मे च निरता सदा इहाचरस्वधर्मं त्वं यथा मे मनस सुखं सीते यथा त्वं वक्ष्यसि शीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया बले वने दोषा हि बहवो वसत तान्निबोधमे सीते मोच्यतामेषा वनवास कृता मतिः बहुदोषम् हि किम् कान्तारम् वनम् नित्यभिधीयते हित बुद्ध्या खलु वचो मय्येतदभिधीयते सदा दुःखम् न जानामि दुःखमेव सदा वनम् गिरिनिर्धर सम्भूता गिरिनिर्दयरीवासनाम् सिंहानाम् निनदा दुःख श्रोतुम् दुःख मतोवनम् क्रीडमानाश्च विश्रब्धा मत्ता शून्यो तथा मृगाः दृष्ट्वा दुःखमतोवनम् सग्राह सुरितश्चैव पङ्कवत्यस्तु दुस्तरः मत्तैरपि गजे नित्यम् अतो दुःखतरम् वनम् लताकण्टकसङ्कीर्णा कृपनादिता नृपाश्च सुदुःखा च मार्गात् दुःखमतो वनं सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले त्रेषु श्रम श्रमखिन्नेन तस्मात् दुःखमतोवनम् ओरात्रञ्च सन्तोष कर्तव्यो नियतात्मना वले वृक्षापपतितैः शीते दुःखमतोवनम् उपवासश्च कर्तव्यो यथा प्राणेन मैथिली जटाभारश्च कर्तव्यो वल्कलाम्बलधारणम् देवतानाम् पितॄणाम् च कर्तव्यम् विधिपूर्वकम् प्राप्तानाम् अतिथीनाम् च नित्यश प्रतिपूजनम् कार्यस्त्री अभिषेकश्च काले काले तञ्च नित्यशः चरताम् नियमेनैव तस्माद् दुःखतनम् मनम् उपहारश्च कर्तव्य कुसुमै स्वयमाहृतै आर्षेण विधिना वेद्याम् सीते दुःखमतो वनम् यथा लब्धेन कर्तव्य सन्तोषस्तेन मैथिली यथाहारी वनचरे सीते दुःखमतो वनम् अतीव वातस्तिमिरम् बुभुक्षा चाति निश्चे भयानि च महान्त्यत्र ततो दुःखतनम् सरिसृपाश्च भवो बहुरूपाश्च भामिनी चरन्ति पथिते दर्पा ततो दुःखतरम् मनम् नदी नीलयिनः सर्पा नदीकूटीलगामिनः तिष्ठन्त्यावृत्यपन्थानम् ततो दुःखतरम् मनम् पतङ्गा वृश्चिका कीटा दंशाश्च मशकै बाधन्ते नित्यमबले सर्वम् दुःखमतो वनम् भ्रुमः कण्टकिनैश्चैव कुशाकाशाश्च भामिनि वने व्याकुलशाखाग्रा तेन दुःखमतो वनम् कायक्लेशाश्च बहवो भयानि विविधानि च अरण्यवासे वसतो दुःखम् कर्तव्या तपसे मतिः न भेतव्यम् च भेतव्ये दुःखम् नित्यमतो वनम् तदलम् ते वनम् गत्वा क्षेमम् न हि वनम् तव बहु दोषकरम् वनम् वदन्तु नेतुम् न कृता मतिर्य तदा महात्मना न तस्य सीतावचनम् च कारतम् ततो ब्रवीहिद राममिदम् सुदुःखिता इत्यार्षे श्रीमद् रामायणे वाल्मीकीयादिकाव्ये अयोध्याकाण्डे अट्टाविञ्च सर्गः श्रीसीता